हर य नम अत नवमोध्याद उवाच प्रह्लावाच एवं सुराधय सर्वे ब्रह्मरुद्रपुरःसराः नोपैतुमसखन्मन्युसम्भ्रमं सुदुरासधं साक्षात्ति प्रेक्षिता देवै दृष्ट्वा तन्महदद्भुदम् अदृष्टा श्रुतपूर्वत्वात् सा नोपेयायसङ्किता प्रक्राधं प्रेक्षयमास तातप्रसमयोपेखी स्वपित्रे कुपितं प्रभुं ततेति सनकैराजन्महाभागवतोऽर्भकः उपेत्य भुविका येन विद्रुधाञ्जलिः स्वपादमूले पतितं तमर्भकं विलोक्य देव कृपया परिप्लुतः उत्थाप्य तच्छीष्ण्यदधात् कराम्बुजम् काला किस्तधियां कृता भयं सतत्करस्पर्श दुता किला सुभ सभत्यभिव्यक्तपरात्मदर्शणः तत्पादपद्मम् कृतिनिर्वृतो दधो हृष्यत्तनुक्लिन्न हृदश्रुलोचनः अस्थौ शीत हरिमेघात् मनसा सुसमाहितः प्रेमगद्गत या वाचा नन्द्यस्तहृदये क्षणः प्रक्लात उवाच ब्रह्मादय सद्वै गतानमतयो वच साम्प्रवाहैः नारदितुं पुरुगुणै अधुनापि पिब्रुहो किं तोष्टुमर्हति समे हरिरुग्रजाते हें मन्येदनाभिजनरूपतपसृतौ जः तेजःप्रभावफल य हि परस्य पुंसो भक्त्या तुतोष भगवान् गजयूत पाय आधारबिन्दविमुखात् स्वपचं वरिष्ठं मन्ये तदर्पितमनो वचने प्राणं पुनाति सकुलं न तु भूरिमानः प्रभुरयं निजलाभपूर्णो मानं जनात विदुष करुणो वृणीते भगवते विदधीतमानम् तच्चात्मने प्रतिमुखस्य यथामुखश्रीः तस्मादहं विगतविक्लव ईश्वरस्य सर्वात्मनामहि नीचो जया गुणविसर्गमनुप्रविष्ठ पूयेतये न हि पुमाननुवर्णितेन सर्वे ह्यमीविधिकरास्तव ब्रह्मातयो वयमिवे सनसोद्विजन्तः क्षेमाय भूतयभूतात्मसुखाय चास्य विक्रीडितं भगवतो रुचिरावतारैः तस्य च मन्योर्मसुरश्च साधुरपि वृश्चिकसर्पहत्या लोकाश्च निर्वृतिमिताः प्रतियन्ति सर्वे रूपं रसिंहविभयाय जनाः स्मरन्ति नाहं बिभें यजिते दि भयानकास्य जिह्वार्कनेत्रभ्रकुटीरभसोग्रदंष्टरात् आन्त्र शत जगेसरशङ्कुकर्णात् निर्ह्राद भीत दिगिभात् अरिबिन्दकाग्र त्रस्त्रोऽस्म्यहं कृपणवस्थलोऽग्र संसार चक्रगदनाद् ग्रसतां प्रणीतः बद्धस्व कर्म बिरुसत्तमतेङ्रिमूलं प्रीतो बवर्क शरणं त्वयसे गता नु यस्मात् प्रिया प्रिय वि योग सोनाग्निना सकलयो निषु दह्यमानः दुःखौषधम् तदपि दुःखमदध्याहम् रोमन् भ्रमामि सोकं प्रियस्य सुहृद लीलाकथास्तव नृसिंहविरिञ्च गीताः अञ्जस्तितर्मि अनुगृह्णन् गुणविप्रमुक्तो दुर्गाणि ते पदयुगालयहंससङ्गग बालस्य नेकशरणम् पितरो नृसिंह नार्तस्य चागतम्बुधन्वती मज्जतो नो तप्तस्य तत्प्रतिविधिर्य इकाञ्जसेष्ठः तावद्विभो तनुभृतां त्वदुपेशितानां यस्मिन् यतो यर्कि येन च यस्य यस्माद् यस्मै यथा यदुतयस्त्वपरः परो वा भावः करोति विकरोति पृथत्स्वभावं सञ्चोदितस्ततखिलं भवतक् स्वरूपं कर्ममयं बलीय कालेन चोदितगुणानुमतेन पुंसः छन्दोमयं यत जयार्पितः शोटसारं संसारचक्रमय कोतितरे त्वधन्यः सत्वं कि नित्यभिजितात्मगुणस्वधाम्ना कालो वसीकृतविसृज्य विसर्गशक्तिः चक्रे विसृष्टं अजयेश्वर षोटसारे इभीष्ट्यमानम् उपकर्ष विभो प्रपन्नं दृष्टा मयादिविभो किलधिष्ण्यपाना आयुष्टियो विभव इच्छति अज्ञनोऽयं ये स्मत्पितुः कुपितः स विजृम्भितब्रो आयुश्रियं विभवमैन्द्रियमाविरिञ्च नेच्छामि ते विलुलितान् उरुविक्रमेण कालात्मनोपनय मां निजभृद्य पार्श्वं कुत्रासिश्रुतिसुखा मृगतृष्णिरूपा क्वेदं कलेव रमशेषाम् विरोहः निर्विद्यते कामानलं मधुलैव समयन्दुरापैः क्वा कं रजः प्रभव ईशतमोदिकेऽस्मिन् जन्तोर्यथात्मसुहृदो जगतस्तत संसेवया सुरतरोरिव ते प्रसादः सेवानुरूपं उदयो न परा एवं जनं निपतितं प्रभवाहि कूपे कामाभिकामं मनुयप्रपतन् प्रसङ्गात् कृत्वात्मसाक्षुरर्षिणा भगवन् गृहीतः ोऽहं कथं नु विसृजे तव भृत्यसेवां मत्प्राणरक्षणमनन्तपितुर्वधस्य विधातुं खड्गं प्रगृह्य यधवोचदस्विधि स्तुः त्वामीश्वरो हरामि एकस्त्वमेव जगदे तमुष्य आद्यन्तयोपृथगपस्यशिमद्यतश्च सृष्ट्वा गुणव्यतिकरम् निजमाययेदम् नानेव तैरवसितस्तदनुः प्रविष्टखा त्वं वायितं सदसदी स भवांस्ततोऽन्यो माया यदात्मपरभुद्रियं ह्यपार्थ यद्यस्य जन्मनि स्थितिरीक्षणं च तद्वैतदेव वसुकालवत्तष्टिधर्वोः न स््येतम् आत्मनि ते शेत्मना निजसुखानुभवो निरीहः योगेन मीलितदृगात्मनि पीतनिद्रः तुर्ये स्थितो न तु नमो न गुणांश्च वपुरिदं निजकालशक्त्या सञ्ज्योतितः प्रकृतिधर्मण आत्मगूढम् अम्बस्य नन्तशयनात् विरमत्समाधेर् नभेर भूत्स्वकणिका वटवन्महाब्जम् तत्सम्भवः कविरथोऽन्यत् अपश्यमानस्त्वां बीजमात्मनि ततं स्वबहिर्विचिन्त्य नाविन्द धप्त कालेन तीव्रतपसा परिशुद्धभावः त्वामात्मनि स भुवि गन्तमि वाति सूक्ष्मं बोधेन्द्रिया विततं ददर्श एवं सकस्रवदनाग्रिसिरक्करो र्णनयनाभरणायुधाड्यम् मायामयं सदुपलक्षितसन्निवेशम् दृष्ट्वा महापुरुषमापमुदम् विरिञ्च तस्मै भवान् हयशिरस्तनुवं च बिप्रेद्रुहावति बलौ मधुकैडभाग्यो हत्वा नयधृदिगणां स्तुरजस्तमश्च सत्वं तव प्रियतमां तनुमामनन्ति चित्तं लोकान् जषावतारेर्लोकान् विभावयसि हंसि जगत्प्रदीपान् धर्मं महापुरुषपासि चन्तः कलौ यदभवस्त्रियुगोदसत्वं नैतन्मनस्तव कथा सुविकुण्ठनाथ सम्प्रीयते कामातुरं हर्षशोकभयै क्षणार्थं तस्मिन् विमृशामि दीनहा जिह्वै कतोश्युत विकर्षति मा विदृप्ता शिस्नोन्यतस्त्वं श्रवणं कुतश्चेत् घ्राणोऽन्यतश्च बलदृक्व च कर्म शक्तेर्भक् स पत्न्य इव गेहपतिं लुनन्ति एवं स्वकर्म अन्योन्यजन्मरणासनभीतभीतम् पश्यन् जनम् स्वपरविग्रहवैरमैत्रम् हन्तेति पराचर बिप्रुहि मूढमध्य कोन्वत्त्रते किल गुरो भगवन्प्रयासः उत्तारणे श भवसम्भवलोपहेतोः मूढेषु वैमखधनुग्रह आर्तबन्धो किं तेन ते प्रियजनाननुसेवतां नः नैवोद्विजे परधुरत्यय त्वद्वीर्यगायनमहामृतमग्नचित्तः शोचे ततो विमुखचेतस इन्द्रियार्थ मायासुखाय भरमुद्वहतो विभूढान् प्रायेण देवमुनयस्व विमुक्तिकामा मौनं चरन्ति विजनेन परार्तनिष्ठाः नैतान्विहाय कृपणान् विमुक्षयेको नान्यं त्वधस्य शरणं प्रमदोऽनुपश्ये यन्मै सुखं हितुच्छम् कण्डूयनेन करयोरिव दुःखदुःखम् तृप्यन्ति नेखकृपणा बहु दुःखभाजः कण्डूदिवन्मनसि जं मौनव्रतश्रुततपोद्ययनस्वधर्म व्याख्यारहो जपसमादय आपवर्ग्याः प्रायः परम् पुरुष ते वार्ता भवन्त्युधनवात्र तुताम्बिकानाम् रूपेयिमे सदसती तव भेद सृष्टे बीजाङ्कुराविव युक्ता समशमुभयत्र विचिन्वते त्वां योगेन वनिक्मिवधारुषु त्वं वायुरग्निरवनिर्वियधम्बुमात्रा प्राणेन्द्रियाणि हृदयं चितनुग्रहश्च सर्वं त्वमेव स गुणो विगुणश्च भूमन् नान्यत्वदस्त्यभिमनो नैते गुणा न गुणिनो महधातयो ये सर्वे मनःप्रभृधयः सगदेवमर्त्याः आद्यन्तवन्तगुरुगाय विदन्ति हि त्वाम् एवं विमृश्य सुधियो विरमन्ति शब्धा तत्तेर्हर्तमनमस्तुतिः कर्मपूजाः कर्म स्मृतिश्चरणयोः श्रवणं कथायां संसेवया त्वयि विनेति षडङ्गया किं भक्तिं जनः परमहंस गतो नारदौ वाच हे धावत् भक्त्या भक्तेन निर्गुणः प्रग्लादं प्रणतं प्रीतो यथमन्युरभाषधा श्रीभगवानुवाच प्रह्लादभत्रभत्रं ते प्रीतोहं ते शुरोत्तम वरं वृष्णीव अभिमतं काम पूर्वस्म्यहं नृणां मामप्रीणत आयुष्मन् दर्शनं दुर्लभं हि मे दृष्ट्वा मां न पुनर्जन्तोः आत्मनां तप्तुमर्हति प्रीणन्ति ह्यतमां धीरां सर्वभावेन साधवः श्रेयस्कामो महाभागात् सर्वासामासिशां पतिम् एवं प्रलोभ्यमानोऽपि वरैर्लोकप्रलोभनैः एकान्तिद्वाद्भगवती नैश्चनशुरोत्तमाः इति श्रीमद्भागवते महापुराणे सप्तमस्कन्दे प्रह्लादचरिते भगवत्स्तभो नाम नवमोऽध्यायः सर्वत्र गोपिका जीवनस्मरणं गोविन्द गोविन्द सद्गुरुनाथमहराजिकी जय